मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं फिफ्टि सेवेन् भृशुण्डीभक्तिवर्णनं श्रीगणेशाय नमः गृत्समद उवाच द्विदिये दिवसे तत्र धर्मदत्तो महामुनिः स्वगृहे तं मुनेः पुत्रमानयामास मगे दैत्यौ हदौ तेन करवेशधरा उुभ काम क्रोधा सुर पश्चागवेश मुनिस्वय विनायकं के प्रद सिबुद्धि सुलक्षणे ततस्तत्रायया जृम्भाराक्षसीखोररूपिणी रूपं धृत्वा मनुष्यस्य सुप्रसन्नाननाम्बुजा विषयुक्तेन तैलेन साममर्द विनायकं। विज्ञादा देवदेवेन हदा मृत्युमवाप चदुर्थे दिवसे तत्र सम्प्राप्ता दैत्यपुङ्गवाह ज्वालामुखोद्धव्याघ्रास्यो दारुणश्च महाबलः तान् हत्वा योगभावेन काश्यपो लीलया रमद बालमध्ये यथान्यो वै प्राकृतो मायया सुर ब्रह्मविष्णुमुखास्तात्र द्रष्टुमाश्चर्यमुत्कटम् बालक्रीडनसम्भूतं संस्थिताश्च व्यलोकयन् तत्र तं पञ्चमे देवं दिवसे मुनिनन्दनं प्रणम्य भ्रुशुण्डी चा पूजयत्तम् मानस्यापूजया प्रभुम् पूजां दृष्ट्वा स्वयं राजा प्रातस्तत्र सुविस्मितः उवाच कृताकेन पूजेयं वदमे मे प्रभो ततस्तम् कथयामास्रुशुण्डी मेदिवल्लभः महाभक्तः करोति माम् पूजाम् पश्य नराधिप एकनिष्ठतया विप्रो भजते मां जानादि देवतीर्थादिकं कदा श्रुत्वा तस्य वचोरम्यं जगाद नृपसत्तमः विनायकं प्रणम्यैव तं प्रदर्शय योगिनं काशिराजवच श्रुत्वा प्रेषयामास तं ततः जीवनाश्वसमारूढो राजा तस्याश्रमं ययौ दृष्ट्वा तं शुण्ढया युक्तं विस्मितो नृपः प्रार्थयामास योगीशं काश्यां नेतुं सुभकृदः काशीराज उवाच विनायकाज्ञया स्वामिन्नागतस्तेऽमाश्रमे त्वामाह्व यदि देवोऽस्सौ मद्गृहे संस्थितस्वयं चतुर्ध्यामद्ययोगीन्द्रमानस्या पूजया त्वया पूजितस्तां महापूजां दर्शयामा स मां विभुः कश्यपश्य गृहे सोऽपि विनायक इति स्मृतः तपसा पुत्रो भूद्गणनायकः अहं तस्य तथा यजमानो महामदे विवाहार्थं तु पुत्रस्या निदोत्सौ मद्गृहे मया विनायकेन कथितमानयस्वमहामुनिं याचे ह्यदोऽहं योगीन्द्रा महापुरीं तस्य तद्वचनं श्रुत्वा विस्मितो मुनिसप्तमः उवाच तं स गणेशकाशिराजं महामतिम् भ्रुशुण्ड्युवाच शृणुराजन्महाभागवेदान्तागोचरो विभुः यदिभ्र्यात्समायादस्त्वद्गृहे कश्यपात्मजः तथापि शुण्डयाहीनं नमामि न कदाचन कलां शाधिसमयुक्तं जानीहि नृपसत्तमा कलात्मकास्तस्य सर्वे देवा विष्णुशिवादयः ते सर्वे मां नमन्त्येव शुण्डा भक्तियुदम्बरं गजाननं परित्यज्याकं नमामि न कथञ्चन अतस्त्वं गच्छ काश्यां वै तं नयामि विनायकं तस्य तद्वचनं श्रुत्वा ह्येकभक्तिसमन्वितम् उवाचदं प्रणम्यैव काशीराजः प्रतापवान् काशीराज उवाच मुने शृणुवचो मेद्य नाहं शक्रो भवामि च काश्यां गन्तुं महाभागापराह्णे श्रान्तवाहनः ततो मुनिर्नृपं प्राह लोचनामीलनं कुरु तथा भूतं नृपश्रेष्ठं प्रेषयामासताम्बुरीं पुनरुन्मील्य नेत्रे स्वे पश्यद्गेहं महानृपः स्वा पुरीं विस्मितो भूत्वा प्रणनाम विनायकं वृत्तं संसृत्य भूपेशात् पुनस्तं गणनायकः मायया स मुनेस्तस्याश्रमस्तमकरोत्तदः पुनः समागतं वीक्ष्य नृपं प्राकमहामुनिः किमर्थ मागदो वादमे मे गृहे तदस्थं राजशार्दूलो जगाद च यद् विनायकेन भो स्वामें स्वामाह्वयदि विघ्नपः तेनाहं प्रेषितो नूनं शुण्डादण्डधरेण चलशीघ्रं मया सार्धं द्रष्टुं पूर्णं गजाननम् श्रुत्वा तस्य वचोरम्यं भक्त्यात्यन्तं लुलोट च रोमाञ्चितशरीरोत्सौ साश्रुनेत्रो महामुनिः तं दृष्ट्वा विस्मितोऽत्यन्तं काशिराजो महामनाः अहो भक्तिरियं साक्षात् दृश्यते दे देहधारिणी देहभावं समासाद्य यत्रार्थं तेन भूभुजा भुशुण्डी चलितश्चैव स्वाश्रमात् प्रजगामसः देहश्रमेण यात्रा वै कर्तव्या गणभस्य च विचार्यैवं ययौ पद्भ्यामविमुक्तं महामुनिः ज्ञात्वा तस्य हृदिस्थं सा निश्चयं प्रापयामास काश्यान्तम् क्षणेन नृपसंयुतम् नृपेण नगरी दृष्टा तमुवाच ततः परम् स्वामिन् समागता काशी प्रभावात्तपसश्च ते ततस्तम् स्वगृहे नीत्वा पूजयन् नृपसत्तमः विनाय कस्समायादम्भक्तम् तस्य भावं विदित्वा सौ धृत्वा विनायकः मूषकोपरि संस्थाय प्रजगाममहामुनिं चतुर्भुजधरं विप्रो महोदरविराजितं शशनाभिं त्वे कदन्तं दृष्ट्वा तं प्रणनाम च अपूजयद्भ्रुशुण्डितं भक्तिभावसमन्वितः पुनः प्रणम्यतुष्टावनास्तोत्राय प्रसन्नधीः उवाच विस्कलद्वाक्यो भक्ते रसपरिप्लुदः गजाननं निजं नादं कृतकृत्यो महासुरा भृश्युण्ड्युवाच तव दर्शनमात्रेण कृतकृत्यो गजानन महदा भाग्ययोगेन दृष्टं ते चरणं विभो अधुनामे मे वरं देहितेन तुष्टो भवाम्यहं तव विस्मरणं नाथ न ना भवेन्मे तथा कुरु अनेनैव स्वरूपेण मस्थाने संस्थितो भव आशापूरकनाम्ना त्वं भव गजानन तत्रैवानन्यभक्रिया त्वं भजामि रसयुक्तया मुद्गलेन समं मां त्वं पूर्णं भक्तं गुरुप्रभो अथवा मुद्गला चैवाधिगं मां कुरु विघ्नव वा तस्य नाल्पकः एवं प्रार्थयमानं तं तथेदि गणनायकः जगादश पुनर्बालो भूत्वा खेलत्तु सादरम् तं प्रणम्य ययौ स्थानं स्वकीयं मुनिसत्तमः भ्रुशुण्डी च तदकाशिराजः सविस्मितोऽभवद हृदि राजा विचार्या सा वेकनिष्ठो बभूवः गणेशभजने दृष्ट्वा भ्रुशुण्डी चरिदं महद अहो मुनिवरोधन्यो नानारूपात्मिकां परां मायां त्यक्त्वा स योगेन भजदे गणनायकं सर्वेषां ब्रह्मणां योगो गणेशे भवति प्रभो अतस्तमेकभावेन भजते सौ महामुनिः ये कनिष्ठा समभक्तिर्न भूता न, न, न, न भविष्यति कोट्यांशेन समानन्यत्तद्भजेत् योगिसत्तमः सर्वत्र गणराजोऽयं वसत्यत्र न संशयः कलांशेन ततोऽन्येषां भजने च फलं लभेत् गणेशभजनं ह्येकं चेत्पूर्णं भजनं भवेत् सर्वेषां च गणेशस्य भ्रुशुण्डी तत्समाश्रितः अहो भ्रुशुण्डिना तुल्यो दृश्यते न कदाचन प्रत्यक्षो गणराजोऽयं शुण्डावान्नात्र संशयः काश्यामुक्तिस्वरूपायामागतोऽसौ महामुनिः मणिकर्णीं च विश्वेश्यं सस्मारमनसापिना गणेशार्थं समायादस्तं प्रणम्य महामुनिः स्वाश्रमं जगाम सुखदायकं येवं विस्मयभावेन काजिराजस्तदा भजद गणेशं साधुभावज्ञसोऽपि तत्समदां ययौ ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे धचरीते भक्ति भक्तिवर्णन नाम सप्त सप्तचाश्त ओम